प्रथमं मुख्य श्र प्रधानमन्त्री श्रीनरेन्द्रमोदी सामाजिकं शक्तिकरणं उद्दिश्य कृत्रिम बुद्धिमत्ताया समुपयोग विषये अद्य आन्तर्जालिकं शिखर समुद्घाटयति देशे कोविड् ऊनविंशति महामारीतः विमुक्तानां भारताभिजनानां प्रतिशतता प्रवर्ध्य चत्रशीति दशमलव एकांश परिमिता संवृत्तास्ता प्रशासनेन प्रोच्यते यत् कृषेह प्रवर्तमाने वर्षाकालिके सत्रे अद्यावधि एकचत्वारिंशत् सहस्राधिकेभ्य कृषकेभ्यो न्यूनतम समर्थन धान्यानि कृत्वा तेभ्यो द्व्यशीत्यधिक सहस्र कोटि रूप्यकाणि प्रदत्तानि बिहारप्रदेशे भावि विधानसभा निर्वाचनेष् लोकजनशक्ति पार्टीति दलम् एकाकी एव स्पर्धांगणे अवतरिष्यति अपि च आईपीएल क्रिकेट स्पर्धा मालिकायां गतदिवसे मुम्बई इण्डियंस दलेन सनराइजर्स हैदराबाद वृन्दं पराजितम् प्रधानमन्त्री श्रीनरेन्द्रमोदी सामाजिकं शक्तीकरणम् उद्दिश्य कृत्रिम बुद्धिमत्ताया समुपयोग विषये अद्य पञ्चदिवसात्मकम् आन्तर्जालिकं शिखर सम्मेलनमेकं समुद्घाटयिष्यति सम्मेलनस्मिन् स्वास्थ्य कृषि शिक्षा कुशल सामाजिकं परिवर्तनं समावेशनं शक्तिकरणं अधिकृत्य विशद विधास्यते एतदर्थम् अत्र मञ्च विश्वस्य ख्याता अनुसन्धातार नीतिनिर्मातार विशिष्ट विज्ञातारश्च समवता भविष्यन्ति कोविड महती, भारते पंच हा, हा, कोविड दर्शकोविड् ऊनविंशति महामारीत स्वस्थीभवतां मितौ सम्प्रति महती प्रगति परिलक्ष्यता इदानीं भारत पञ्चपञ्चाशल्लक्षाधिका रोगिण कोविड संक्रमणात् विमुक्ता कोरोनात स्वस्थीभूतानां जनानां वैश्विक्यां मानाङ्क तालिकायाम् एष देश शीर्षणं स्थलमलंकरोति विगतास् चत्र्विंशतिहोरास् स्वस्थीभूतान् द्व्यशीति सहस्राधिकान् जनान् समेत्य अद्यावधि रोगादस्मात् विमुक्तानां भारताभिजनानां प्रतिशतता प्रवर्ध्य चत्रशीति दशमलव एकांश परिमिता संवृत्तास्ति अत्रतरे केंद्रीय स्वास्थ्य डॉक्टर हर्षवर्धन आशा प्रकाशिता यद्देशे कॉरोनात पिताय आगामी जुलाई मस यशत कोटि प्रायाण रोजीण कृते रोग प्रतिरोधी मसूरण समपलब्ध स्यु प्रशासन प्रोच्य कृषे प्रवर्तमें वर्षा कालिके स अद्यावधि एक कृषकेभ्यो न्यूनतम समर्थन मूल्यै पादोन षड्लक्ष टन परिमितानि धान्यानि क्रीत्वा तेभ्यो द्व्यशीत्यधिक सहस्र कोटि रूप्यकाणि प्रदत्तानि उपभोक्तृ विषयाणां केन्द्रीय मन्त्रालयेन संसूचितं यत् प्रवर्तमान वित्तवर्षाय धान्यानां क्रयण प्रक्रिया सम्प्रति सकलेष्वपि प्रदेशेष् प्रारब्धा बिहार बिहारप्रदेशे भावि विधानसभा निर्वाचनेष् लोकजनशक्ति पार्टीति दलम् एकाकी एव स्पर्धांगणे अवतरिष्यति दले स्पष्टीकृतं यत् जदयूदलेन सह वैचारिकात् मत विभेदात् तत् संयुते अपेक्षया स्वतन्त्रतयैव निर्वाचनानि संमुखीकरिष्यति एतद्विषयको निर्णयश्च गतदिवसे नवदिल्ल्यां दलाध्यक्षस्य चिराग पासवानस्य आध्यक्ष्ये सम्पन्ने संसदीय समितेः समुपवेशने गृहीतः विंशति प्रतिविंशति क्षेप चक्राणाम् आईपीएल क्रिकेट गतदिवसे मुम्बई इण्डियन्स दलेन सनराइजर्स हैदराबाद वृन्दं चत्स्त्रिंशत् ततः पूर्व पणकं विजित्य प्रथमं क्रीडता मुम्बई दलवीरै निर्धारितेष् विंशतौ क्षेप चक्रेष् हैदराबादीयानां समक्षं द्विशत धावनांकानां विशालं विजय लक्ष्यं प्रत्युत्तरे प्रतिद्वन्द्विदलं चत्स्सप्तत्यधिकान् शतं धावनांकानेव समर्जित् प्राभवत्